महावाक्यरत्नावले पञ्चमं प्रकरणम् अथ सार्धान्तिकोपदेशवाक्यानि चतुःपञ्चाशत् स य एषोऽमयतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो अभयं वै जनकप्राप्तोऽसि ब्रह्मचर्यमहिंसा च अपरिग्रहं सत्यं च यत्नेन हे रक्षतो हे रक्षतो हे रक्षत इति तत्त्वमसि त्वं तत् असि यन्मनसा न मनुते येनाहुर्मनोमतम् तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् अन्तःपूर्णो बहिः पूर्णः पूर्णकुम्भ इवार्णवे अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे मा भवग्राह्यभावात्मा ग्राहकात्मा च मा भवनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव द्रष्टुदर्शनदृश्यादि त्यक्त्वा वासनया सह दर्शनप्रथमाभ्यासम् आत्मानं केवलं भज चित्ताकाशं चिदाकाशमाकाशश्च तृतीयकम् द्वाभ्यां शून्यतरं विद्दे चिदाकाशं महामुने ध्यानतो हृदयाकाशे चिते चिच्चक्रधारया मनोमारय निश्शङ्कम् त्वाम् प्रबध्नन्ते नारयः भोगैकवासनां त्यक्त्वा त्यज त्वम् भेदवासनाम् भावाभावौ ततस्त्यक्त्वा निर्विकल्पः स्थिरो भव त्यज धर्मम् अधर्मम् च उभे सत्यानृते त्यज उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्यज आत्मन्यतीते सर्वस्मात् सर्वरूपे अथवा ते को बन्धः कस्य मोक्षो निर्मूलं मननं कुरु आशायातु निराशात्वं अभावं यातु भावना अमनस्त्वं मनो यातु तवा सङ्गेन एकमाद्यन्तरहितम् चन्मात्रम् ममलम् ततम् खादप्यतितराम् सूक्ष्मम् तद्ब्रह्मासि न संशयः रक्षको विष्णुरित्यादि ब्रह्मा सृष्टिस्तु कारणम् संहारे रुद्र इत्येवम् सर्वमिथ्येति त्यक्तं नास्ति किञ्चिद्वा मत् त्यक्ता पृथिवेतु वा यद्यद्वा तत्तन्नास्तीति निश्चिनु अनात्मेति प्रसङ्गो वा अनात्मेति मनोऽपि वा अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु आदिमध्यायसानेषु दुःखं सर्वमिदं यतः तस्मात् सर्वं परित्यज्य तत्त्वनिष्ठो भवानघ निद्राया लोकवार्तायाः शब्दादेरात्मविस्मृतेः क्वचिन्नावसरं दत्त्वा चिन्तयात्मानमात्मनि सर्वव्यापारमुत्सृज्य अहं ब्रह्मेति भावय अहं ब्रह्मेति निश्चित्य त्वहं भवं परित्यज घटाकाशम् महाकाश इवात्मानम् परात्मनि विलाप्याखण्डभावेन तूष्णीम् भव सुदा चिदहास्तेति चिन्मात्रमिदम् चिन्मयमेव चित्त्वम् चिदहमेते च लोकाश्चिदिति भावय सत्यचिद्घनमखण्डमयद्वयं सर्वदृश्यरहितं निरामयम् विमदं विमलम् मद्वयम् शिवम् तत्सदाहम्यते मौनम् आश्रय जन्ममृत्युसुखदुःखवर्जितम् जातिनेतिकुलगोत्रदूरगम् चिद्विवर्तजगतोस्य कारणं तत्सदा हम्यते मौनम् आश्रय पूर्णम् अद्वयम् अखण्डचेतनम् विश्वभेदकलनादिवर्जितम् अद्वितीयपरसंवित्मकम् तत्सदाहम्यते मौनम् आश्रय स्वात्मनोऽन्यतया भातम् चराचरमिदम् जगत् स्वात्ममातृतया बुद्ध्वा तदस्मेति विभावय विलाप्य विकृतिम् कृत्स्नाम् सम्भवव्यत्ययक्रमात् परिशिष्टं चिन्मात्रम् चिदानन्दं विचिन्तय इति सार्धान्तिकोपदेशवाक्याने चतुःपञ्चाशत् पञ्चमम् प्रकरणं समाप्तम्